ॐ श्रीपरमात्मने नमः अद्वैतानुभूतिः अहमानन्दसत्यादिलक्षणः केवलः शिवः रूपं यत्ते नाहमचलोऽद्वयः अक्षि दोषाध्यदैको विद्वयवद्भादिचन्द्रमाः एकोऽप्यात्मा तथा वन्मायया मृषा अक्षिदोषविहीनानामेक एव यथा शशी माया दोषविहीनानामात्मैवैकस्तथा सदा द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगद् द्वित्वं मृषा यथा चन्द्रे मृषाद्वैदं तथात्मनि आत्मनः कार्यमाकाशो विनात्मानन्नः सम्भवेत् कार्यस्य पूर्णदा सिद्धा पूर्णदात्मनः काज्य भूदो कार्यभूद यश एकक ने दुभूतस्तमेक विचानदेकूर्णस्थ तथात्मायमुपाधितः कारणोपाधि चैदन्यङ्कार्यसंस्थाचिदोऽधिकम् न खडाभ्रान्मृदाकाशकुत्र चिह्नाधिको भवेद निर्गतोपाधिराकाश एक एव यथा एक एव तदात्मायं निर्गतोपाधिकस्सदा आकाशादन्य आकाश आकाशस्य यथा न हि एकत्वादात्मनो नान्य आत्मा सिद्ध्यति चात्मनः मेखयोगाद्यधानिरङ्करका कारदामियाद मायायोगात् तथैवात्मा प्रपञ्चा कारदामियाद वर्षोपल इवाभादिनीरमेवाभ्रयोगतः वर्षोपलविनाशेन नीरनाशो यथा नहि आत्मैवायं तथाभाधि मायायोगात् प्रपञ्चवद प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् जलाधन्य जलोद्धो बुद्बुदो यथा तथात्मनः पृथगिव प्रपञ्चोयमने कदा। यथा बुद्बुदनाशेन जलनाशो न कर्षिचित् तथा प्रपञ्चनाशेन नाशस्यादात्मनो न हि अहि निर्ल्वयनी जादशुच्यादिर्नाहि माप्नुयाद तथा स्थूलादिसम्भोदशुच्यादिर्नाप्नुयादिमम् त्यक्तां त्वचं महिर्यद्वदात्मत्वेन न मन्यदे आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा अहिनिर्ल्वयनीनाशादहेर्नाशो यथा नहि देहत्रयविनाशेन नात्मनाशस्तथा भवेद् तक्रादिलवणोपेदमज्ञैर्लवणवद्यथा आत्मा स्थूलादिसंयुक्तो दूष्यते अहः काष्ठादिकं यद्वद्वाह्निवद्वाह्नि यो गतः भाविस्थूलादिकं सर्वमात्मवत् स्वात्मयो गतः दाहको नैव दाह्यं स्यादाह्यं तद्वन्न दाहकः नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः प्रमेयादित्रयं सार्धं भानुना खडकुड्यवद येन भादिस एवाहं प्रमेयादिविलक्षणः भानुस्फुरणदो यद्वस्फुरतीव खडादिकं स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा पिष्ठादिगुलसम्पर्कात् गुलवत्प्रीतिमान्यथा आत्मयोगात् प्रमेयादिरात्मवत्प्रीतिमान् भवेद् कडनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः वह्निं विना कथं तेषा मुष्णदा स्याद्यथा क्वचिद भूतभौतिकदेहानां स्फूर्तिता स्वात्मयो गतः विनात्मानं कथं तेषां स्फूर्तिता स्यात् तथा क्वचिद नानाविधेषु कुम्भेषु वसत्येकं न भो यथा नानाविधेषु देहेषु तद्वदेहो वसाम्यहम् नानाविधत्वं कुम्भानां नयात्येव यथा नभः नानाविधत्वं देहानां तद्वदेव नयाम्यहं यथा कडेषु नष्टेषु कडाकाशो न नश्यति तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा यथा न संस्पृश्येत् सूत्रं पुष्पाणामुत्तमादिदा तथा नैगं सर्वगम् माम् देहानामुत्तमादिदा पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं नश्यति तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा पर्यङ्करद्युरन्ध्रेषु नाने वैकापि कापि सूर्यभा एकोऽप्यनेकवद्भादि तथा क्षेत्रेषु सर्वगः रज्जुरन्ध्रस्तदोषादि सूर्यभाम् न स्पृशेद्यथा तथा क्षेत्रस्तदोषादि सर्वगमान्न संस्पृशेद तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् प्राणो नाहमनेकत्वान्मनोनाहं चलत्वदः बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वदः नाखं। देहेन्द्रियादिकं नाखं विनाशित्वा खडादिवद देहेन्द्रियप्राणमनो बुद्ध्यज्ञानानि भासयन् अहङ्कारं तथाभामि चैदेशामभिमानिनं सर्वं जगदिदं नाहं विषयत्वादि दन्धियः अहं नाखं सुषुप्त्यादौ अहमः साक्षितः सदा सुप्तौ यथा निर्विकारस्तथा वस्ताद्वयेऽपि च द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् उपातिनील रक्ताद्यैस्फटिको नैव लिप्यते तदात्मा कोश जैः सर्वैः नैवलिप्यदे भालेन भ्रम्यमाणेन भ्रमदीव यथा मही अगोप्यात्मा विमूढेन चलतीव प्रदृश्यते देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते यावत् तावदयमूधो नानायो निषुजायते निद्रादेहज जा दुःखादि जाग्रद्देहं न संस्पृशेद जाग्रद्देहज जा दुःखादिस्तथात्मानं न संस्पृशेद जाग्रद्देहवदाभादि निद्रा देहस्तु निद्रया निद्रा देहविनाशेन जाग्रद्देहो न नश्यदि तथायमात्मवद्भादि जाग्रद्देहस्तु जागराद जाग्रद्देहविनाशेन नात्मा नश्यति कर्षिचिद हित्वाऽयं स्वप्निकं देहं जाग्रद्देहमपेक्षते जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिन तथा भोक्ता बहिर्यथ भोग्य सर्पो दृषदिकल्पिदः दृषति कलशीलाय्चात्म भोग्यस्व ज्ञास्व संसारो यदय कर्मण जानदो न ीर्यद्वद्रज्जुसर्पमजानदः स्व इन्धवस्य खनो यद्वज्जलयोगाज्जलं भवेद स्वात्मयोगात् तथा बुद्धिरात्मैव ब्रह्मवेदिनः ये कोऽप्यात्मा तथा भादि सर्वक्षेत्रेष्वनेकवद भानोरन्य इवा भादि जलभानोर्जले यथा आत्मनोऽन्य इवा भासो भादि बुद्धौ तथात्मनः बिम्बं विना यथा भवेत भवेत् कथम् विनात्मानं तथा बुद्धौ चिदाभासो भवेत् कथं प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्षिचिद न भवेयुस्तथा भासकर्तृत्वाद्यास्तु नात्मनः जले शैत्यादिकं यद्वत् जलभानुं न संस्पृशेत् बुद्धे कर्मादिकं तद्वत् चिदाभासं न संस्पृशेद बुद्धे कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः चिदाभासो विकारीव शरागस्ताम्बुभानुवद शरावस्तोदके नष्टे तस्थोभानुर्विनष्टवद बुद्धेर्लयेत्तथा सुप्तौ नष्टवत् प्रतिभात्ययं जलस्तार्कं जलं चोर्मिं भासयन्धादिभास्करः आत्मा भासं धियं बुद्धे कर्तृत्वादीनयं तथा मेखाव भासको भानुर्मेखन्नो वभासदे मोहाव भासकस्तद्वन्मोहच्च नो विभात्ययम् भाष्यं मेखादिकं भानुर्भासयन् प्रतिभासदे तथा स्थूलादिकं भाष्यं भासयन् प्रतिभात्ययम् सर्वप्रकाशको भानुः प्रकाश्येर्नैव दोष्यते सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न मृषा बुद्धिस्ता भासकस्तद्वदात्मवत् मृषा मुकुरस्तस्य नाशेन मुखनाशो भवेत्कथं बुद्धिस्ताभासनाशेन नाशो नैवात्मनः क्वचिद ताम्रकल्पितदेवादिस्ताम्राधन्य इव स्फुरेद प्रति भास्यादिरूपेण जगद ईशजीवात्मवद्भादि यथैकमपि ताम्रकम् एकोऽप्यात्मा तथैवायमीश जीवादिवन्मृषा यथेश्वरादिनाशेन ताम्रनाशो न विद्यते तथेश्वरादिनाशेन नाशो नैवात्मनः सदा अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जु सत्तया तथा जगदिदम्भादि सत्यवत् स्वात्मसत्तया अध्यस्ताखेरभावेन रज्जुरेवावशिष्यते तथा जगदभावेन सदात्मैवावशिष्यते स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे यथा जगदिदम्भाधि तथा सत्यमिवाद्वये स्फटिके रक्ततामिध्यामृशाखे नीलता यथा तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि जीवेश्वरादिभावेन भेदं पश्यति मूढधीः निर्भेदे निर्विशेषेऽस्मिन् कथं भेदो भवेद्ध्रुवं लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् लिङ्गनाशे शिवस्यास्य जीवता वेशता शिव एव सदा जीवो जीव एव सदा शिवः वेत्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः क्षीरयोगाद्यधा निरम् मृषा आत्मयोगाधनात्मायमात्मवदृश्यते तथा नीरा क्षीरम् पृथक्कृत्य हंसो भवदि नान्यथा स्थूला दे स्वम् पृथक्कृत्य मुक्तो भवदि नान्यथा क्षीरनीरविवेकज्ञो हंस एव न चेतरः आत्मानात्मविवेकज्ञो यदिरेव न चेतरः अध्यस्तचोरजस्थाणोर्विकारस्यान्न कि क्वचिद नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ज्ञादे स्थाणौ कुतश्चोरश्चोराभावे भयम् कुतः ज्ञादे स्वस्मिन् कुतो विश्वं विश्वाभावे कुतोऽखिलम् गुणवृत्तित्रयम् भादि परस्परविलक्षणं सत्यात्मलक्षणे यस्मिन् स एवाहं निरंशकः देहत्रयमिदम्भादि यस्मिन् ब्रह्मणि सत्यवद तदेवाहं परं देहत्रयविलक्षणः जाग्रदादित्रयं यस्मिन् प्रत्यगात्मनि सत्यवद स एवाहं परं ब्रह्मजाग्रदादिविलक्षणः विश्वादिकत्रयं यस्मिन् परमात्मनि सत्यवद स एव विश्वादिक विलक्षणः विराडादित्रयम्भादि यस्मिन् साक्षिणि सत्यवद स एव सच्चिदानन्दलक्षणोऽहं स्वयं प्रभः इति श्रीमत्परमहंसपरिव्राचकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवहकृतौ अद्वैतानुभूतिः सम्पूर्णा ॐ